5 मुद्गलपुराण खंडम फंबोदरचर श्री श्रीगणेशा नम मुद्गल उवाच लंबोदर लंबोदरावता मूषखगोय प्रकीर्ति दहा। स एव शक्तिपुत्रोऽभूत्तशृणुष्व प्रजापदे शक्तिलोकस्थिता देवी नर्ममे सकलं जगद तद्रक्षणविहारार्थं त्रिधा महाकाली तथा दक्ष महालक्ष्मीः महा सरस्वदी प्रोक्ता भक्तानां भेदनाशनाद ताभ्यो नानाविधा जादा देव्यो दुर्गादिका किल देवीभिस्सहिता सापि तताप तप उत्तमं एकाक्षरविधानेन दिव्यवर्षसहस्रकं तद्ध प्रसन्नभावेन विघ्नेशो वरदो भवद स्तुतः सम्पूजितस्ताभिर्वरं चित्तेप्सिदं ददौ बहु त्वन्नो कथयितुं भवेशक्यं प्रजापदे वरस्यैव प्रभावेण स्वस्वकार्यरदा बभुः दिव्यो नित्यं भजन्ते कुलदैवतम् आदिशक्तिर्महामायाः शान्त्यर्थं पुनरारभद तपो दुष्करमत्यन्तं तदशान्तिमवापसा तथापि तपसा तदो वर्षेषु पूर्णेषु सदे तं दृष्ट्वा हृदि संस्थं सा तुष्टावभिधैस्तवैः तदो बहिर्विनिसृत्य जगाद जगदम्बिकाम् पुत्रोऽहं ते महाभागे ध्यानजो नात्र संशयः पश्य मां त्वं महामाये स्थितं लम्बोदरं बहिः सा प्रबुद्धा बहिर्लम्बोदरं वीक्ष्य तुतोषः अथर्वशिरसा देवी तुष्टवापूज्य सा श्रुका तुष्टस्तां गणराजश्च जगादवृणुवाञ्छितं दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व चक्रिरुवाच अनेनवपुषानाथस्थिरो भव गजानन देहि दृढं वत्स तव पादाम्बुजे परां योगिनां ध्यानजं ब्रह्मपुत्रो वेदे प्रकीर्तितः तत्र किं चित्र वेदं विनायक कृतं त्वया श्रुत्वा तां गणराजस्तु जगादवचनं हितं मन्मूर्तिस्थापनं कृत्वा पूजयस्वनिरन्तरं पुत्रवत्सलतां तत्र कुलदेवत्वमादराद ब्रह्मभावं तथा देवी कुरुत्वं सर्वदा मयि तत्र पूजोपचाराध्यायः पूजयस्वनिरन्तरं तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि एव मुक्त्वान्तर्दधेसौ लम्बोदरप्रजापदे शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् एवं नानावताराश्च लम्बोदरस्य मानद भक्तानां सर्वसिद्ध्यर्थं भजदां परमाद्भुताः रक्तदन्तादिभिश्चैव देवीभिस्तपसा प्रभुः आराधिदो वधार्थाय दैत्यानां गणनायकः देवीभिः संस्तुतो देवः प्रसन्नो वरदो भवद वरस्यैव प्रभावेण हदा दैत्या अनेकशः यो महादेव्यो भजं स्तं विघ्ननाशनं कुलदैवतभावेन शान्त्यर्थं च प्रजापते ते सर्वे गणराजा वैस्मृदा लम्बोदरात्मकाः ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः इदं लम्बोदरस्यैवावतारस्य कथामृतं शृणोति पठते वापि स सर्वफलभाग्भवेत् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॐ